अथ पञ्चपञ्चाशम् दशकम् अथ वारिणि घोरतरम् फणिनम् प्रतिवारयितुम् कृतधीर्भगवन् द्रुतमारिथ तीरगनीपतरुम् विषमारुतशोषितपर्णचयम् अधिरुह्यपदाम्बुरुहेण च तम् नवपल्लवतुल्यमनोज्ञरुचा ह्रदवारिणि दूरतरम् न्यपतः परिघुर्णितघोरतरङ्गगणे भुवनत्रयभारभृतो भवतो गुरुभारविकम्पि विजृम्भिजला परिमज्जयति स्म धनुःशतकम् तटिनी झटिति स्फुटघोषवती अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितो दरवारिणि नादभरैः उदकादुदगा दुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः फण शृङ्गसहस्र विनिःसृमरज्ज्वलदग्निकणोग्रविषाम्बुधरम् पुरतः फणिनम् समलोक यथा बहु शृङ्गिणमञ्जन शैलमिव ज्वलदक्षि परिक्षरदुग्रविषश्वस नोष्म परिदश्य भवन्तमनन्तबलम् समवेष्ट यद स्फुटचेष्टमहो अविलोक्य भवन्तमथा कुलिते तटगामिनि बालकधेनुगणे व्रज गेहतलेऽप्यनिमित्तशतम् समुदीक्ष्य गतायमुनम् पशुपाः अखिलेषु विभो भवदीय दशामवलोक्य जिहासुषु जीवभरम् फणि बन्धनमाशु विमुच्य जवादुदगम्यतः सजुषा भवता अधिरुह्य ततः फणिराजफणन् नृते भवता मृदु पादरुचा कलशिञ्जित नूपुरमञ्जुमिलत् करकङ्कण सङ्कुल कुसुमानि सुरेन्द्रगणाः त्वयि नृत्यति मारुतगेह पते परिपाहि समम् माम् त्वमदान्तगदात् इति पञ्चपञ्चाशम् दशकम्